श्रीगणेशायनमहादक्षौ वाचो गणेशकीलकं ब्रह्मन् वदसर्वार्थदायकं मन्त्रादीनां विशेषेण सिद्धिदम् पूर्णभावतः श्रीमन्मुद्घनौ उवाच कीलकेन विहिनाश्च मन्त्रानेव सुखप्रदाः आदौ कीलकमेवं वै पठित्वा जपमाचरेतु तदा विरेवता मन्त्राः नानासिद्धिप्रदायकाः भवन्ति नात्र सन्देहः कथयामि यथा श्रुतं अङ्गिरसा समादिष्टं मह्यं गुह्यतमम्बरं श्रीदन्तु गणेशस्य कीलकां शृणुमानत रुषिच्छन्दादिन्यासांश्च कुर्यादादौ तथा परान् दा एकाक्षरश्रमयदक्ष षडङ्गालाचरेत् सुधीः ततो ध्यायेद्गणेशानं ज्योतिरुपधरम्बरं मनोवाणीविहीनं चतुर्भुजविरायितं शुण्डादण्डमुखम् अपूर्णं द्रष्टुं नैव प्रहक्यते विद्याविद्यासमायुक्तं विभूतिभेदुपासितम् एवं ध्यात्वा गणेशान् पूजयैन्मानसे पृथक् पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत अस्य श्रीमद्गणेशकीलकस्तोत्रमन्त्रस्य <coughs> श्री शम्भुऋषिः अनुस्तुप्स्यन्तः श्रीमद्गणेशो देवतां श्रीमद्गणेशयोगीन्द्रकृपाप्रसादार्थे जपादौ पाठे विनियोगः ॐ मृकं बलं श्री अन्दि यशोवीर्यं गजानन् मेधां प्रज्ञां तथा कीर्तिं विघ्नराज न मो सुते यदा देवालयः सर्वे दे कुण्ठितादैत्य कृताः तदा अत्मन्तान् हत्यास्म करो तथा मन्त्रागणेशा न कुण्ठिताश्चतुरात्मभिः सा पैशतान् सवीर्यान् वै पुरुष्वेन मो नमः शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभुः ज्ञानयुक्ता स वीर्याश्च कृता विघ्नेश ते नमः चराचरं जगत् सर्वं सत्त्वाहीनं यदाभवत् त्वया सत्त्वायुतं रुण्डे स्मरणेन कृतं जते सत्त्वानि विरहितानि यथा जातानि विघ्नप स्मृत्या ते वियुक्तानि पुनर्जातानि ते नमः ब्रह्माणि योगहीनानि जातानि स्मरणेन यदा पुनर्गणेशान् योगयुक्तानि ते नमः इत्यादिविधं सर्वं स्मरणेन तव प्रभो सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः तथा मन्त्रा गणेशान् वीरहीना बभूवीरे स्मरणेन पुनर्ढुण्डे वीरयुक्तान् सर्वम सर्वं सत्तासमायुक्तं मन्त्रभूजादिकं प्रभु मम नाम्ना भवतु नमः उत्कीले महामन्त्रान् जपेन स्तोत्रपाठतः सर्वसिद्धिप्रदा मन्त्रा गणेशाय नमस्तुभ्यं हैरम्बायकदन्दिने स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः इदं गणेशकीलकान् कथितन्ते प्रजापते शिवप्रोक्तं तु मन्त्राणां मृत्कीलनकरं वरं जप्पठिशति भावेन जपित्वा मन्त्रमुत्तमं स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम् एनं मन्त्रं जपति नित्यदा स भवति नात्र संशयः सर्वसिद्धिकरं प्रोक्तं कीलकं परमाल्भुतं पुराणेन स्वयं शम्भुर्मन्त्रसिद्धिं तु चालभत विष्णुब्रह्मादयो देवामुनयो योगिनः फले अनेन मन्त्रसिद्धिं ते लेपिरे च प्रजापते वै कृत्वा मन्त्रपरायणः तटस्वानन्दपूर्यां भक्तराजो बभूवः सस्त्रीको जनदेहेन ब्रह्माण्डमवलोक्यतु गणेशदर्शनेनैव ज्योतिरूपबभुवः इति श्रीमन्मौद्गलोक्तं श्रीमद्गणेशीर्कहरं सम्पूर्णं तत्तद्गणेशार्भणमस्तु